नारदपुराणं पूर्वार्थम् अध्यायं शवन् नारद उवाच कोऽसौ राक्षसभावाद्धिमोचिदस्सगरान्वये सगर सगरको मुनिश्रेष्ठ तन्ममाख्यातुमर्हसि सनक उवाच शृणुष्व मुनिशार्दूल गङ्गामाहात्म्यमुत्तमम् यज्जलस्पर्शमात्रेण पाविदं सागरं कुलं गतं विष्णुपदं विप्र सर्वलोकोत्तमोत्तमम् आस्येद्रविकुले जादो बाहुर्नाम वृकात्मजः बुभुजे पृथिवीं सर्वां धर्मदोद्धर्मतत्परः ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च जन्तवः स्थापिता स्वस्वधर्मेषु तेन बाहुर्विशाम्पदिः अश्वमेधैर्यजासौ सप्तद्वीपेषु सप्तभिः अदर्पयद्भूमिदेवान् गोभूस्वर्णांशुपादिभिः अशास् सन्निधिशास्त्रेण यथेष्टं परिपन्थिनः मेने कृदार्थ कृतार्थमात्मानमन्या तपनिवारणं चन्दनानि मनोज्ञानि बलि यत्सर्वदा जनाः भूषिताभूषणैर्दिव्यैस्तद्राष्ट्रे सुखिनो मुने अकृष्टपच्या पृथिवी फलपुष्पसमन्विता ववर्षभूमौ देवेन्द्रकाले काले, काले मुनीश्वर अधर्मनिरतापाये प्रजाधर्मेण रक्षिताः एकदा तस्य भूपस्य सर्वसम्पद्विनाश अहङ्कारो महाञ्जज्ञे सासूयो लोपहेतुकः अहं राजा समस्तानां लोकानां पालको बली कर्ता महाक्रदूनां च मत्तः पूजोऽस्तिकोपरः अहं विचक्षणश्रीमान् जिदा सर्वे मयारयः वेदवेदाङ्गतत्त्वज्ञोनीधिशास्त्रविशारदः अजेयो व्याहतैश्वर्यो मत्तको न्योऽद्धिको भुवि अहङ्कारपरस्यैवम् जादासूया hmm. परेष्वपि असूयातो भवत्कामस्तस्य राज्ञो मुनीश्वर येषु नरो विनाशं यात्य संशयम् यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता एकैकमाप्यनर्थाय किमु यत्र चतुष्टयं तस्या सु यानुमहती जातालोकविरोधिनी स्वदेहनाशिनी विप्र सर्वसम्पद्विनाशिनी विष्टमनसि यदि सम्पत्प्रवर्तते तुषाग्निं वायुसंयोगमिव जानीहि सुव्रत असूयोपेदमनसां दम्भाचारवदां तथा परुषोक्तिरतानां च सुखं सुखम् नेखपरत्र च असूयाविष्टचित्तानाम् सदा प्रियावातनयावापि प्रिया वा तनया वापि बान्धवा अप्यरादयः मनोऽभिलाषम् कुरुते यः समीक्ष्य परस्त्रियं स स्वसम्पद्विनाशाय कुठारो नात्र संशयः यस्वश्रेयो विनाशाय कुर्याद्यत्नं नरो मुने सर्वेषां श्रेयसं दृष्ट्वा स कुर्यान्मत्सरं कुधीहि मित्रा पत्य गृहक्षेत्रधनधान्यपशुष्वपि आनिमिच्छन्नरः कुर्यादसूयां सदधं द्विज अध तस्याविनीतस्य ह्यसूयाविष्टचेतसः है हयास्तालजङ्काश्च बलिनो रादयो भवन् यस्यानुकूलो लक्ष्मीश तस्य वर्धते स विमोघो यस्य सौभाग्यं तस्य हीयते तावत्पुत्रश्च पौत्राश्च धनधान्यगृहादयः यावदीक्षेद लक्ष्मीशकृपा पाङ्गेन नारद अपि बधिर जडाशूरा विवेकिनः श्लाघ्या भवन्ति विप्रेन्द्रप्रेषिता माधवेन ये सौभाग्यं तस्य हीयेद यस्यासु यादि लाञ्छनं जायते नात्र सन्देहो जन्तु द्वेषो विशेषदः सततं यस्य कस्यापि यो द्वेषं गुरुदे नरः तस्य सर्वाणि नश्यन्धि श्रेयांसि मुनिसत्तमा असूया वर्धते तस्य विष्णु धन्यं धान्यम् मही सम्पद्विनश्यदि ततो ध्रुवं विवेकं हन्ध्यहङ्कारस्त्वविवेकस्तु जीविनाम् आपदसम्भवन्त्येवेत्यहङ्कारं त्यजोत्तदः अहङ्कारो भवेद्यस्य तस्य नाशोदिवेगतः असूयाविष्टमनसस्तस्य राज्ञः परैः सह आयोधनमभूद्घोरं मासमेकं निरन्तरं है हैहैस्तालजङ्खैश्च रिपुभिः स पराजितः वनं गदस्तदो बाहुरन्धर्वत्न्या अवाप परमां तुष्टिं तत्र दृष्ट्वा महत्सरः असूयोपेदमनःसस्तस्य भावं निरीक्ष्य सरोगद विहङ्गास्ते लीनाश्चित्रमिदं महद अहो कष्टमहोरूपं फोरमत्र समागदं विशन्तस्त्वरया वासमित्यूचुस्ते विहङ्गमाः सोऽवगाह्यसरोभूपः पत्नीभ्यां सहितो मुदा पीत्वा जलं च सुखदं वृक्षमूलमुपाश्रिताः तस्मिन् बाहवनं यादेतेनैव परिरक्षिताः दुर्गाणान्विगणयास्य धित्यब्रुवन् प्रजाः यो वा को या गुणीमस्य सर्वश्लाघ्यतरो द्विज सर्वसम्पत्समायुक्तोऽप्यगुणी निन्दितो जनैः अपकीर्ति समो मृत्युर्लोकेष्वन्यो न विद्यते यदा बाहुर्वनम् यादस्तदा तद्राज्यगा जनाः सन्तुष्टिम् परमां व्यादा तव धौ विगदे यथा निन्दितो बहुशो बाहुर्मृदवत्कानने स्थितः निहत्य कर्म च यशो लोके द्विजवरोत्तम नास्त्यकीर्तिसमो मृत्युर्नास्ति क्रोधसमो रिपुः नास्ति निम् दाः समम् पापम् नास्ति मोह समासवः नास्त्यसूया समाकीर्तिर्नास्ति काम समो नलः नास्ति रागसमः पाशो नास्ति सङ्गसमम् विषम् एवम् विलप्य बहुधा बाहुरत्यन्तदुःखितः जीर्णाङ्गो मनःसस्तापाद्वृद्धभावादभूदः सौ गदे बहु तिथे काले और्वाश्रमसमीपदः स बाहो व्याधिना ग्रस्तो ममारमुनिसत्तमा तस्य भार्या दुःखार्ता कनिष्ठा गर्भिणी तदा चिरं विलप्य बहुधा सह गन्तुं मनो दधे समानीयज सै चिदां कृत्वा दिदुःखिता समारोप्यतमारूढं स्वयं समुपचक्रमे एतस्मिन्नन्तरे धीमा नौर्वस्तेजो निधिर्मुनिः ये तद्विज्ञातवान् सर्वं परमेण समाधिना भूतं भव्यं वर्तमानं त्रिकालज्ञा मुनीश्वराः गदासूया महात्मानः पश्यन्ति ज्ञान चक्षुषा तपोभिस्तेजसां राशिरौर्वपुण्यसमो मुनिः सम्प्राप्तस्तत्र साध्वी च यत्र बाहुप्रिया स्थिता चिदामारोढुमुद्युक्ताम् ताम् दृष्ट्वा मुनिसत्तमः प्रोवाच धर्ममूदानि वाक्यानि मुनि मुनिसप्तमः और्व उवाच राजवर्यप्रिये साध्वि मा कुरुष्वादिसाहसं तवो दरे चक्रवर्ती चतुर्हन्दा हि तिष्ठति बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा रजस्वला जसूदे नारोहन्ति चिदां शुभे ब्रह्महत्यादिपापानां प्रोक्ता निष्कृतिरुत्तमैः दम्भिनो निन्दकस्य बिभ्रूनघ्नस्य न निष्कृतिः नास्तिकस्य कृधघ्नस्य धर्मोपेक्षाकरस्य च विश्वासघातकस्यापि निष्कृतिर्नास्ति श्रुवते तस्मादेतन्महत्पापं कर्तुं नार्हसि शोभने यदेतद्दुःखमुत्पन्नं तत्सर्वं शां दिमेष्यति इत्युक्त्वा मुनिना साध्वी विश्वस्य तदनुग्रहं विललापादिदुःखार्ता समुह्य तव पत्कजौ आौर्वोऽपि तां पुनप्राह सर्वशास्त्रार्थकोविदः मारोदी राजतनये श्रियमग्रिये गमिष्यसि मा मुं चास्रं महाभागे प्रेदो दाह्योऽद्य सज्जनैः तस्माच्छोकम् परित्यज्य कुरुकालोचितां क्रियां पण्डिते वापि मूर्खे वा दरिद्रे वा श्रियान्विदे दुर्वृत्ते वा सुवृत्ते मृत्यो सर्वत्र तुल्यता नगरे वा तदारण्ये दैवमत्रातिरिच्यते यद्यत्पुरातनं कर्म तत्तदेवेह युज्यते युज्यदे दैवमेव अत्र मन्ये सोपाधिका जनाः गर्भे वा यौवने वापि वार्धके मृत्योर्वशं प्रयातव्यं जन्तुभिः कमलानने हन्दिपादिजगोविन्दो जन्दून कर्मवशे स्थितान् प्रवादं रोपयन्त्यज्ञा हेतुमात्रेषु जन्तुषु तस्माद्दुःखं परित्यज्य सुखिनी भव सुव्रदे कुरु पत्युश्च कर्माणि विवेकेन स्थिरा भव एतच्छरीरं दुःखानां व्याधीनामयुतैर्वृतं सुखाभासं बहुक्लेशम् कर्मपाशेन यन्त्रितम् इत्याश्वास्य महाबुद्धिस्तया कार्याण्यकार यद त्यक्त शोका च स तन्वी न दाप्राहमुनीश्वरम् किमत्र चित्रं यत्सन्तः परार्थफलकांक्षिणः न फलन्ति जगदीतले योऽन्यदुःखानि विज्ञाय साधुवाक्यायः प्रबोधयेत् स सा एव विष्णुस्तत्त्वस्थो यतः परहितेष्टितः अन्यदुःखेन यो देवी योऽन्यहर्षेण हर्षितः स एव जगदामीशो धरो हरिः सद्भिश्रुतानि शास्त्राणि परदुःखविमुक्तये सर्वेषां दुःखनाशाय इति सन्दो वदन्ति हि यत्र सन्तः प्रवर्तन्ते तत्र दुःखं न बाधते वर्तते यत्र मार्तण्डकथं तत्र तमो इत्येवम् वादिनी साधुस्वपत्युश्चापराक्रियाः चकार तत्सरस्थीरे मुनिप्रोक्तविधानदः स्थिते तत्र मुनौ राजा देवराडिव सम्ज्वलन् चिदा मध्याद्विनिष्क्रम्य विमानवरमास्थितः प्रपेदे परमं धाम नत्वा चौर्वं मुनीश्वरं महापांतक युक्दावा युक्दावा वा चोपपादकैः परं पदं प्रयान्द्येव महद्भिरवलोकिताः कलेवरं वा तद्भस्म तद्धूमं वापि सत्तम यदि पश्यति पुन्यात्मा सप्रयादि पराम् गतिम् पत्युकृतक्रिया साधु गत्वाश्रमपदं मुनेः चकार तस्य शुश्रूषां सपत्न्या सहमारद इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम सप्तमेध्याय ओम